Oh uh -huh. विष्णुमुखा वै देवाश्छन्दोलिमान् लोकानन भजे क्रमान् क्रमते विष्णुरेव भूत्वानश्चन्दोमान् लोकान् भजे विष्णोः क्रमास्यभिमादिदेत्याह गायत्रेवैष्टभवन्तरिक्षं जागजेष्टुये मान् लोकानि गर्वमभिजगति प्रजापतिरग् ष्टः परामेतमेतया मेदक्रन्दरितया मे सो मे प्रियं धामावरुं धज देतामन्वाहाग्नेरेवया प्रियं धामावरुं धजेश्वरो वाजपराष्णुक्रमाण्डमजे चिरावर्तते चत्वारि छन्दागं सि छन्दागं सि खरुवाज्ञेयामेव्यावर्तते दक्षिण र्तते स्वमेव वीर्यमनुपर्या वर्तते अस्मा दक्षिणार्ध आत्मनो सौ आदित्यस्यैवावृतमनुपर्या वर्तते वरुणो गृह्णात् सजेतां वारुणे मश्यत्तया वेद आत्मानं वरुणवाचादमुञ्चद्वरुणो वाजेतं गृह्णादिजमुखां शान्मुञ्चत्याः प्रतिष्ठिते विशस्त्वा सर्वाञ्छन् विद्याः विषय वैभवं समाधर्यमिन् राष्ट्रमधिष्ठेत्याह राष्ट्रमेवास्मिन् ध्रुवमगर्यङ्गामलेतराष्ट्रव्यस्यादिकं मनसाध्यायेन् राष्ट्रमेव भवत्यग्रे बृहन् वृषसा मूर्धो अस्थादित्याहा समाना निर्जग्मसीत्याहतमदेवास्मादपहन्दि ज्योतिषागादित्याह ज्योतिरेवास्म्यं दधाति चयति सप्ताछन्दादिच्छन्दसोत्तमया वक्ष्मवादेशा प्रियं धामा वरुन्धाज्ञेन वै तेन प्रियं धामा ेद्युः प्रक्रामत्युत्तरे द्युरुपतिष्ठते तस्माद्योगेऽन्यासा प्रजानाम् मनः क्षेमेऽन्यासाम् तस्मा ज्यायावरः क्षेम्यशेषे तस्मात् ज्यायावरः क्षेम्य मध्यमस्थितिमुष्टीकरोधि वाच यज्ञस्य तृतीय अन्नपदे अन्नस्य नो देहीत्याहानिर्वा अन्नपदे स्तदेवा स्म अन्नम् प्रयच्छज्जनमेवश्च शुष्किण इत्याह लक्ष्मस्य दिवा वैददाः प्रदाचारन्दानुषवोर्जन्मो देहि द्विपदे चतुष्पदयित्याह सुषमेवैदानाशास्तमुदुत्वा स्माय वैनं चित्ताैनगं समर्धयति च दृभिरासादयति चत्वारि छन्द छन्दोभिरेवादिच्छन्दसोत्तमया वष्मवादेशन्दसां यदि छन्दा वष्मै वैनगुं प्रजादित्याह प्रजाभ्रजवेन गुं शमयति रक्षागं शिवाने तद्यज्ञं सचन्दे यदनवुत्सर्जत्यक्रं ददित्यं वा ह रक्षसामपहत्याहं प्रवचतिमेवास्मिन्दुधा तस्मादनस्वे चरची चातिचीनामपचिततमामवसिति मां भवति यदेवं वेन समिधान्यन्दुवस्तमवसिते समिधमादधाति यथा ृष्पदादिच्छन्द्रिगजय तादृगेव तद्गाय त्रिराद्रां हनस्तगायत्रोहि हनस्पृष्टुभा राजं न श्रेष्टुभ हिराजन्योहा सुभस्म प्रवेशयत्यप्सुयोनिर्वा अग्निस्वाभेवै न योनिं गमयति सुहप्रवेशयति त्रिवृद्ध्वा अग्निर्जावा नैवाग्निस्तं प्रतिष्ठां गमयति परादशोहाग्निम्बपदि योः सुभस्मा वेशयति ज्योतिष्ण ोतिरेवास्मद्वारा पुनरुदय प्रजामेव पुनस्त्वादिद्या रुद्रापसभस्समिन्धतामित्याहयितावारे तं देवताभिरेवैसमित्युपतिष्ठदे यत्ते बैलम् तस्मात् सुप्त्वा प्रजाः प्रबुध्यन्ते यथास्थानमुपतिष्ठते तस्मात् यथास्थानम् वसवः पुनरेच्चोपतिष्ठन्ते यावदे वै पृथिवीतस्यै यमाधिपत्यं परे या यजो वै जमं देवजनमस्यानिञ्च दे नुते जमादेस च नुते पेतेत्यध्यवसायति यममे वदे भजनमस्यै निर्यात्मनेऽन्यञ्च नृतविश्वग्रेण वा अस्य अनामृतमिच्छन्तो नाविन्दन्ते देवायैतद्यजुरमस्यन्नपेते यदेवास्यामेध्यन्तदपहन्त्यपोवोक्षदिशान्ति गतानिपद्यतद्वाग्नेर्वैः स्वाधनस्य रूपगुं रूपेणैव मेश्वानमवरुन्ध दोषान्निपदे चर्वा येषा स्पृष्ट्यामेव प्रदनने्यञ्चनुसम् ज्ञानदेव ेतत्पशुनाय दोषा वा पृथिवेस्ताब्रूस्ते मनो यदमुष्यायज्ञमासेत्तदस्यामदधात्तमोषा यज्ञमासेत्तदमुष्यामदधात्तदश्चन्द्रमसि कृष्णमोषा निवपन्नतोऽध्यायेद्या वा पृथिवीवंसो क्तं भवत्येते न वे विश्वामित्रोज्ञे प्रियं धामावरुन्धाग्ने वैदेन प्रियं धामा, धामा वरुन्धय छन्दभिर्वैदेवास्वर्गं लोकमाजतस्रि चत्वारि छन्दागं चन्दभिरेव तद्यजमानस्वर्गं लोकमे तिशागं स्वर्गं लोकै समौलेजं देतवे पुरस्ताहात् समेचे उपादध तद्वे समे चेतादृशोदृगं हृदयद्वे पुरस्ताः समेचे उपदधाति द्वे पश्चात् समे चेदिशास्मे समेचोदधात्यष्टावुपदधात्त्यष्टाक्षरागायत्रे गायत्रोः अग्रजावानेवाग्निस्तञ्च मुतेऽष्टावुपदधात्यष्टाक्षरागायत्रे गायत्रे सुवर्गं लोकमञ्जसा वेदसुवर्गस् लोकस्य प्रज्ञा त्रयोदशलोकं प्रणा उपदधात्ये कविपुंसतिः सम्पद्यन्ते प्रतिष्ठाभाे कविपुंसप्रतिष्ठा गार्यः पत्यदे कविंसस्येव प्रतिष्ठाङ्गार्यः पत्य प्रत्यज्ञं च एवं वेदपञ्चषति िंवेद द्वितीदं चिम्बाणस्तयजमे लोकायष्वेव लोकेषु प्रचतिष्ठत्ये गच्छतिकं चिन्वेद तृतीदं चिम्बाणे कथावर्गो लोके क्रैमसवर्गं नाभ्यो हति तस्मांसेनाश्च भवति जगे वेद पञ्च चित्तरो भवन्ति पञ्चभिः पुरेशे अभ्यो हति दश सम्पद्यं ते दशाः विराडन्नं प्रतिष्ठति ौ दुषाते यश्च पुराजश्चोखाजामितमिति तदसृभिः सन्निपदे वा विषन्दागं सि छन्दागं सि खलु वा अग्ने वैनौ तनुवासुतमित्याह तस्मात् ब्रह्मणा क्षत्रगं समेधि यत्संव्यभिहरति तस्मात् ब्रह्मणा क्षत्रं मेत् चतुभिर्वादे ैनंञ्च दि वयेष्वारिजा सदयत्येवनं नैवृदे कृष्णास्ति स्वस्तुषन्ति निर्वृत्ति इवादे तत्था निर्णृत्ते रूपं कृष्णनुरूपेणैव निर्णृतिं निरवदयत इमां दिशैजं देशा वै निवृत्ते स्वायामेव दिशि निर्णृतिं निरवदयते स्वयधनिरण ैतद्वै निरृत्यायस्वदेवायतने निरृतिं निरमदयते शिक्षमभ्युपदधा जनैर वै पाषस्साक्षादेवैनन्निर्णदिपाशान्मञ्जयति उपदधाति त्रेधा विहितो वै पुरुषो यावाणेव पुरुषस्तस्मान् निरृतिमवगजते पराचेरुपदधाति पराचिमेवास्मान् निरृतिं प्रणुधते प्रदेक्षमायन्ति निर्वेद्यां दल हृत्यै मार्जयते त्वपदिष्ठम् तेनेध्यत्वा जमुपदिष्ठन्ते निरतिलोकदेव चलित्वा भूतादेव लोकमुपावर्तम् तजे कजोपतिष्ठं दयेघैव यजमाने वीर्यं दधति निवेशनः सङ्गमनो वसूना विज्ञाः प्रजा वै पशवोऽ वसु प्रजयैवैनं पशुभिः समर्थयन्ति पुरुषमात्रेण विमिमेते यज्ञेण वै पुरुषः संवितो यज्ञ पुरुषैवते जावान् पुरुषोद्भवास्तावान् भवत्येतावद्भ्ये पुरुषे वीर्जं वीर्जे नैते पक्षी भवति नह्य पक्षः पतितुमरिहत्यदत्निना पक्षौ द्राघीजागं सौभव तस्मात् पक्षप्रवजागं ेन संवत्सरेण इवे अग्नेरतिदादपित्कृष्टञ्चकृष्टञ्च ततो वा युवान्नात्यकृष्टञ्च भवत्यस्यानदिदाहा यद्विगुणन्त्वाग्निहदेत्या हृहत्कृष्टं चाकृष्टं च भवत्यग्नेरुद्यत्याो वै पशवोत्सृजयति रुद्राजामिद्याद्यद्दक्षिणा द्रुभ्यो निधुमे प्रदे चो रक्षागुंसिहन्य हृदि समुत्सृजत्येषा वै देव मनुष्याणागुं शान्ता लिक्ता मे वै नामि ृजत्य सोऽखल्विमान्त्सृजत्य सौवादित्यनोत्सृजति दक्षिणा वर्ज्या वर्तं ते स्वमेव वीर्य मनुवर्ज्या वर्तन्ते तस्मात् दक्षिणोऽर्ध आत्मनो वीरजावर्तरोध आदित्यस्यैवावृतमनुव्या वर्तन्ते तस्मात्मराष्ठन्ते प्रत्यञ्च आवर्तन्ते त्रिवृदमे चतुर्दशप्त सप्तारण्य उभजेशामवरुद्ध्यान्नस्यान्नस्य भवत्यन्नस्यान्नस्य अवरुद्धे कृष्टे भवति कृष्टे ह्योषधजः प्रतिष्ठन् जनुसीतं भवति प्रजाहा द्वादशसु सीतासु भवति द्वादश मासाः स्मान्नं पचतेवरुद्धेजादवरुद्धे नृजध्ये तयेव नस्पतेनां फलग्रहजस्ता निध्ये विक्रोक्षेदनवरुद्धवरुद्धे निभ्यो लोष्टां समस्यति दिशामेव वीर्यमवरुध्य दिशां वीर्येण च मनुते यन् द्विश्याद्यद्रसस्यात्तस्यै दिशो लोष्टमाहरे दिशमोर्जमहमित आददविदेशमेव स्यैदिशो वरुन्धे क्षोधुको भवतिजस्तस्यात्युत्तरवेदिमुपभवत्युत्तरवेश्चेयते च वशवो वावुत्तर वेदिष्पशोने वा वरुन्धेथो यज्ञपरुषोऽनम् तरित्यै अग्नेतव श्रवो भज इति सिकतानिपपद्येतद्वाग्नेर्वैश्वा नरस्य सूक्तगुंसोक्ते वैश्वा नरमवरुन्धे षग्भिर्निपति षड्वादवः संवत्सरः संवत्सरोहाग्निर्वैश्वा नरः साक्षादेव वैश्वा नरमवरुन्धे समुद्रं वैनामैतच्छन्दः समुद्रमनुप्रजाः प्रजागन्ते यते न सिकता निपपति प्रजानाम् प्रजनाजेन् न्द्रवित्रां प्रहरच्छावन्तर्कराः पशुरग्निर्कराभिरग्निं परिमिनोदि वज्रेणैवास्मेण पशवः परिगृहीतास्तस्माच्छेदो नोपहर पशुकामस्य परिमिनुजात् सप्त वैशेष्याः प्राणाः प्राणाः पशवः प्राणैरेवास्मि पशोनवरुन्धे त्रिणवाभिर्भ्रातृजवत त्रिभृतमेव भ्रातृजा प्रहरतिस्त अपरिमिताभिः परिमिनुजादपरिमितस्य अवरुध्ये यं गामरेत्य शर्करास्य गताव्यो हेदपरिगृहेत एवास्य शोचेन परासिञ्च पशुरेव भवति जङ्कामयेतपुमान् चादिति परिमेत्यगृहेतरे वास्मि समीचीनरेतसि पशुमानेव भवति सौम्या व्योहति सोमो वैरेतो धारेतये तद्रि गाय धिया प्रां धनश्च गायत्रो हि व्रां हनस्त्रिष्टुभा राजन्यस्य प्रष्टुभो हि राजन्य ुम्मारस्वं मेधो नेः पुष्करवर्णगम् स जोनिमेवान्यवाम् पृष्ठमसेत्युपदधात्यपाम्पृष्ठैयत्पुष्करवर्णगम् रूपेणुपदधाति ब्राह्मजज्ञानमिति रुक्ममुपदधाति ब्रह्ममुखा मयि प्रजापति ब्रह्मजानमित्याह तस्माद्ब्राह्मणोदं दिनपृथिवजान्नान्तरिक्षे नश्चेतं जगति यत् पृथिव्या न्तरिक्षे चिन्वेदान्तरिक्षगुं सुचार्पये प्रजायद्येदं सुचार्पजेन्नवर्जं वरुषे द्रुक्ममुपदधाते प्रजापदधाति यजमानलोकस्य विथान्नमनोपदध्यात्पशूनां च प्राणमपि दध्याब्द रक्षणतः प्राञ्चमुपदधाति यथा नजमानलोकन्नवशोनां च यजमानस्य च प्राणमभिदधात्र शोकौ विष्टगाया मातृ नोपदधाति प्राणानामुत्सृष्ट्ये द्रप्सश्च स्कन्देत्यभिनशदिहोद्राः ै असावौदुम्बरी मे एवोपधप्ते तूष्णे दधाति नहि मेहति दक्षिणाङ्काष्मरिजमलेमुत्तरा मौदुम्बरीं तस्मादस्याज्यस्य पोर्णाङ्गाः स्मरिजमलें वज्रो वा आज्यं वज्रः काश्मरुजोज्रयणज्ञस्य ज्ञमुखेखे वै क्रियमाणे यज्ञकं रक्षागं सुजखागं सन्ति यज्ञमुखं रुक्मा यद्रुक्मं व्याखारजति यज्ञमुखादे व्याघारयति माङ्गो यज्ञो जावाने अवयज्ञस्तस्माद्रक्षाभिश्च वहम् यक्षजा व्याघादयति तस्मादक्षणजा पशवोऽङ्गानि प्रहरम् दिप्रतिष्ठित्य स्वय मातृणामुपदथा दीयं वये स्वय मातृण्णेमाभे वोपधत्तेष्वमुपद्रा प्राणमेवास्याजापत्यो वाश्वः प्रजापतिनैवाग्निंवे प्रथमेश्वगोपधीयमाना ्याग्निर्वैश्वाधरोणस्तस्मै प्रथमामिष्टकां चेत्तां ब्राहं हनश्चोपदध्यातामग्न वेपदग्नितैश्वरो वा एष आर्तिमार्तो विद्वानिष्टकामवदधा चित्रेण वराहं दध्यात्रजो वै प्राणा प्राणाना विस्मृत्यै द्वा वे वनेजौ वि प्राणः पशुर्वाजन्न खलु वै रसवाय वसे रमं तेजोर्मेष्टकामुपदधाति पशूनां द्वाभ्यां प्रेच्छत्ति काण्डाः काण्डात् प्ररोहं तेत्याः काण्डेन ेषा प्रतिक्षेवानो दूर्वे प्रतनुसहस्रेण चेच्छासहस्र प्रजापतिः प्रजापते राप्त्ये देवलक्ष्मं वैत्या लिखितामुत्तरलक्ष्मणं देवा धरलक्ष्मणमसुराजङ्कामजे तपसीजान् सादित्युत्तरलक्ष्माणं तस्वर ध्यापसीजानेव भवति जङ्कामजे तपन् सादित्यधरलक्ष्मणं तस्य परन्ध्यादसु यो निमे वै नमनुपराभावयति पावन् भवति लिखिला भवति मे वै लोकास्त्या लिखितलोकेभ्यो भादृजमन्दरेत्यङ्गिरसत्स्वर्गं यतः पुरोडासः कूर्मो भूत्वानुप्रासद्भद्यत् कूर्ममुपदधा देशा नयत्येव मे वैनं कौर्मस्वर्गं लोकमञ्जसा नयति मेभ्यो मे न सोणायद् कौर्मो यत् कोर्मम पदधाति समेवमेधं पश्यन्दसव उपतिष्ठन्ते श्मशानं वा एतत्क्रियते जंमृतानां शीर्षान्यपथेदं ते यज्जीवन्तं कोर्मम पदधादिधेना श्मशानचेन्वास्तं मधुवादायतां वा एतदङ्गधारण्यं मधु धादि सुवर्गस्य लोकस्य तस्मात् पुरस्ता प्रत्यञ्च पशवो मे समुपतिष्ठन्ते लो वा अपनाभिमग्निमनुप्रविश धाद्वाग्नेर्नाभिस्सनाभिमेवाग्ंसा औदुम्बरं भवत्योर्वा उदुम्बर ऊर्जमे वा वरुन्धे उपदधाति मध्यत देवास्मा ऊर्जं दधाति तस्मान्मध्यतूर्जाभृन्दवलि प्रजावलिना यज्ञमुखेन संवितमवहन्तैष्णर्जा उपदधाति विष्णुर्वै यज्ञो अतयो यज्ञयेव यज्ञम् प्रतिष्ठापयति येषां वा एतल्लोकानां ज्योतिः सम्भृतै दुःखाय दुःखामुपदधान्धे उपदधातिर्दुधादितो ज्योतिरूपास्महे कदाश्वानरस्वरूपेणैव वैश्वानरं वरुन्धे रङ्गामदे तक्षोभृकस्यादित्यो न्दस्योपदध्याक्षोभिति पूर्णान्दस्योपदध्या तनुपदस्य देवान्नमहस्रं वै प्रति पुरुषः पशूनां यच्छति सहस्रमन्ये पशवो मध्ये पुरुषशीर्षमुपदधाति यद्वादो खादामपि दधाति प्रतिष्ठामे वैनद्गमयतिर्यद्धं वादे तत्प्राणैरमेध्यै यत्पुरुषशीर्षं खलु वै प्राणा मृतकं हिरण्यं प्राणेषु हिरण्यशल्कान् प्रप्यस्य प्रतिष्ठामेव प्राणे समर्थयति दद्धामथि मिश्रेण पोरजति मथ विद्वायम्रण्यं मथुजद् पशोने वावरुन्धे जङ्गामये शोचेनानिदश्च पदधाद्विशोचदेवास्मात् पशोन् जङ्कामशुमान् समे च देवास्मे पशुधा भवति पुरस्तात् प्रदेचेन पश्चात् प्राचीन वृषभस्यापशभो वा अन्ये गो अश्वेभ्यः पशवो गो अश्वानेवस्मे समे च जावन्तो वै पशवो निपादश्चादश्च तानुवा एतदग्नौ प्रदधा जयत्पशुशीर्षाण्युपदधात्तमु्यमनुजयदृ मेजग्राण्येभ्यजम पशुभ्य आरण्यान् पशोञ्छतमनोज तस्मात् समावत्पशूनां प्रजायमानानामारण्याः पशवः कनीजागुंसु चाहताः सत्पशीर्षमुपदधा दि त्वे द्विषस्तामेवावरुन्धे यत्समीचीनम् वशशीरुषेरुपदध्यान् ग्राम्यान् वसोन्दगुम् सुखास्य यद्वशोचीनमारुण्यान्ेव वदेतपतान् द्विषुगुम् रुन्धेजा सत्त्वेन ग्राम्यान् वसोन हिनद्लोपथेदमेव पदधादितेन तान् द्विषिमवरुन्धेजा सत्त्वेन यद्यजुर्वदधितेन शान्तम् पशुर्वादेशयधज्ञो निः खलु वा एषा पशोर्विक्रियते याचे नेतो अभस्या उपदधाति यो नावेव रेतो दधाति पञ्चोपदधाति वा पशवः पशूने वा स्मैनयदि पञ्च दक्षिणतो वज्रो वा अभस्या वज्रेणैव यज्ञश्च दक्षिणतो रक्षाणि वहन्ति प्राचीनगुमरेतो धीरते पश्चादेवास्मे प्राचीनगुमरेतो दधाधिपञ्च पुरस्तात् प्रदेचेरपदधादिपञ्च पश्चात् प्राचीस्तस्मात् प्राचीनगुमरेतोधीरते प्रदेचे प्रजापञ्चोत्तरतश्चन्दस्याः पशवो वैच्छन्दस्या पशो नैवार समायतनमधिपर्योहत इजम् वा प्राणभृत उपदधाति प्राणान् दधाति तस्माद्विदन् प्राणन् पश्चन् पशुर्जाय तेजं गुरोभुव प्राणमे वेदाभिर्दाधारायं दक्षिणा विश्वकर्मेति दक्षिणतोमनदे वेदाभिर्दाधारायं प्रतिष्ठाप्राचेस्ताभिष्ठा दक्षिणादाभिर्भरद्वाजो या प्रदेशेस्ताभिर्विश्वामित्रो यास्ताभिर्जमलग्भिर्जास्ताभिर्विश्वकर्माजेवं वेदर्ध्नात्येव यहासामेवं बन्धुतां वेदबन्धुमान् भवति यासामेवं भृद्धिं वेदकल्पनेऽस्मै प्राणपदुपधाय संयतमुपदधाति प्राणानेवास्मिन् प्राणजेवापानं दधाणापानो सञ्चरतो विशोचेदपदधापानो यद्वा अग्नेरसंयत र्गमस्य तत्सुवर्गो निर्जत्संयतैर्मम् सर्वदः भवते वायन्त्रे दृष्टुम् च गत्य दृष्टुपञ्चासह बृहद्दृष्प्यः गत् शोचेऽभिः शिम्यम् तुत्वा द्विपदाया च दुष्पदा द्विपदाया च षट्पदा सन्दाया च मिच्छन्दा शोचेभिः शृञन्तु त्वा महानाहारेव विश्वासाः प्रसुवरे मेऽध्या विद्युतो वाचः शोचेभिः नारीस्ते पद्मजो लोमभिचिन्मन्तु मनीषया देवानाम् पद्मेर्दिशोचीभिः श्रून्यम् कृत्वा कुबिरन्धयवमन्तोजपञ्चिद्यथानुपूर्वम् विजूय हे हैषाम् वृणुतभोजनानि देवरिहिषो नमो वृत्तिर्न जग्मुः स्वाच्छ स्वाभिस्तिकस्ते गात्राणि शिम्यति कमुदेशमिता कविः ृतमस्तन तु धा मनुष्यमितारो विशासतु संवत्सरस्य धायसा शिमेभिः शिम्यन्तु त्वात्मस्त्वाच्छन्तु विचशासतु गाग्राणि पर्वशस्ते शिमाः शृण्वन्तु शिं यन्तः अर्थमासाः परोगुंषिते मासा हास्यन्तु शिं यन्तः अहोराग्राणि मरुतो मिलिष्टगम् सोजयन्तु ते पृथिवीतेऽन्तरिक्षेण वायुश्चिद्रम्भ्यतु द्याौस्ते न क्षद्रैः सहरो मन्त्रणोतु साधुया शम्ेवरेभ्यो गात्रेभ्यः श्रमस्त्ववरेभ्यः श्रमस्थभ्यो मज्जभ्यः श्रमुदे मनुवे भुवदि भो